गणेशपुराणं क्रीडाखण्डम् अध्यायं 50 मुनिरुवाच कथं का च काशीराजेन प्राप्तं तत्स्थानमुत्तमं मुद्गलस्योपदेशेन तन्मे शंसितुमर्हसि क उवाच तीर्थयात्राप्रसङ्गेन मुद्गलस्तं नृपं ययौ स्वपूजयित्वा पप्रच्छ सर्वज्ञं तं मुनिं नृपः नृप उवाच विनायकस्य लोकः कप्राप्यदे स कथं मया मुनिरुवाच स्वानन्दभुवनेत्येवं निजलोके दिचद्वयं वैनायकस्य लोकस्य विख्यातं नाम वर्तते उत्पत्ते यदा दैत्यौ दवाक विनायकुम मनुष्यविष्य सदु दुबकूपेण लीला अद्भुत विक्रमा क्यलोके महाबल शुक्लस्य भक्तियुक्तस्य दरिद्रस्य गृहे यदा भुक्त्वा दत्त्वा मोघलक्ष्मीं शुक्लायेन्द्रस्य दुर्लभं विवाहास्त्रं समानीतो दर्शयिष्यति पौरुषं यदा ते गृहमागच्छेत् तदा तद्भक्तितो नृप काशीराजमहाबाहो निजलोकमवाप्स्यसि का कउवाच उवाच यवमुक्त्वा गदे तस्मिन् काशीराजो महामतिः गणेशभक्तिं कुर्वाणः कालाकाङ्क्षी बभूवः ततो बहु तिथे कालेऽवतीर्णोऽसौ विनायकः कश्यपश्य गृहे यो वै लीलाविग्रहवान् विभुः हतानानां विधा दैत्याः क्रीडनानां विधा कृताः दारिद्र्यम् कृतवान् सद्यः शुक्लस्यादन् गृहे तदा काशीराजस्य भवनं पुनरागान्महाबलः हदौ महाबलौ महा दैत्यौ देवान्दकनरान्दकौ स्वानन्दभवनं यादः क्षीरसागरमध्यगं काशीराजस्तु विरहा चिन्तयन् सर्वधातुदम् आलिङ्गति नरं कञ्चिदयमेव विनायकः इति मत्वा सभामध्ये सर्वं तादात्मकं जगद पश्यति स्म दिवा रात्रौ सोऽपि तन्मयदा मियाद निराहारः कदाचित् स तिष्ठति नृपस्तदा ग्रासमात्रं कदाचित् स भुनक्ति च यथा मदि कदाचिद्धसदे क्वापि नृत्यदिस्म नृपस्तदा निद्रादिबहुकालं तं स्वप्ने विनायकं एवं नृपे स्थिदे मात्याश्चिन्ता यदि लोका विजानीयुः परचक्रं पदेत्तदा एवं चिन्तयतां तेषा ममात्यानां नृपालये तदैव मुद्गलो ध्यानं विसृज्य नृपतिं ययौ तद्दर्शनप्राप्तबोधः प्रणनाम नृपो उपवेश सन पश्चा संपूज्यंजलिवाचाधन्यो वंशो जनुर्म पितरौ मंदर नेत्रे धन्यं यत्प्रसादात् धन्यमर्शना परंस्थ संसारणमृ अवमानान् महाद्दुःखं तं त्वा दृष्टवान् तमुवाच ददो विप्रोवाच तस्य सुतोषितः मुनिरुवाच त्वा दृश्यस्तु विनीदात्मा नैव दृष्टो न च श्रुतः पूजनात् परितुष्टोऽहं वाञ्छितं ते ददाम्यहं क तत्त्वाक्यपरितुष्टोऽसौ काशीराजो जगादतम् अनेनैव जेहेन स्वानन्दभुवनं मुने इच्छेयं च चिरं तत्र स्थातुं नैव सम्पदः तद ऊजेमुद्गलोऽस्सौ परितुष्ठस्तया गिरा अनेन जडदेहेन स्वानन्दभुवनं नृप प्राप्स्ये त्वं गणेशस्य पुनरावृत्तिवर्जितः भुक्त्वा न सम्पदः पञ्चसहस्रपरिवत्सरान् ब्रह्मकल्पमयं कालं तदस्वानन्दमाप्स्यसि नृप उवाच कीदृक्सलोकना वद सत्य मुने मम कुण्य गम्यसद मैयाखिला मुद्गल उवाच शृणु राजमया श्राविहिमा कपलामुनेसर्वोका है प्रसिद्धा ये श्रुतास्वया गहना गदिरत्यन्तमस्य लोकस्य भूपते दिव्यलोकेदि नामस्य निजलोकेदि चापरम् सकामदायिनिपीठे सन्धिष्ठदि विनायकः विस्तीर्णम् पञ्च महामदे रत्नकाञ्चनभूमौ स राजदे स्वानन्दनामा दिव्योऽयमिक्षुसागरमध्यगः न वेदैर्नचदानैश्च व्रत यज्ञैर्जपेरपि तपोभिर्विविधैश्च प्राप्यदे नैव कर्षिचिद विनायकस्य कृपया प्राप्यदे नित्यभक्तिदः समष्टिव्यष्टिरूपोऽत्र सदा तिष्ठदि विघ्नराट पादैष सप्तपादालं व्याप्य शेषशिरांसि च कूर्मं च कमठं चैव श्रोत्राभ्यां च दिशोऽखिलाः केशैव्योमापि संरोध्य स्थित आधारपङ्कजे भूमध्येऽप्यग्निचक्रे तं द्वीपत्रे ध्याधिपुण्यकृत केचरीमुद्रया युक्तो नान्यो ध्यातुं न च क्षमः सहस्रपत्रं ब्रह्माण्ड तत्र तेजस्वरूपोऽस्ति हृदि द्वादशपत्रकम् दशपत्रं नाभिचक्रं लिङ्गे षट्पत्रकम् शुभम् षोडशारं कण्डदेशे तत्र सर्वत्र विघ्नराड तेजोरूपी दीप्यमान सत्यलोके यथाविधिः द्वादशारं तु वैकुण्ठम् तत्र विष्णुः सदा स्थितः कण्ठाब्जे पञ्चवक्त्रोऽसौ कैलासे सगणो यथा सोमसूर्याग्निनेत्रोऽसौ भूमण्डलमहोदरः एकविंशतिस्वर्गात् स व्याप्य चौषधिरोमवान् स्वरितः सागरायस्य खने बिन्दुर्विभात्य सौ ब्रह्माण्डे भान्दि यस्यैव ब्रह्माण्डानि तु रेणुवद त्रयत्रिंशत्कोटिदेवा जीवा ये च सहस्रशः औदुम्बरगदा भान्दिमशका इव तद्गदा रजनां तस्य लोकस्य सङ्क्षेपेण ब्रुवे तुङ्गं यन्मे ऋषिखरं तत्कैलासशिरस्पृहन् सहस्रयोजनं शून्यमगम्यं मुनिपुङ्गवैः तत्र एका नाम नामदः यत्सं मदान्त्येव भ्रमरा शुभ्र पद्मासनगदाधारशक्तेस्तन्मस्तके स्थिता चामीकरनिभायास्तन्मस्तके कामदायिनी कोडिसूर्यनिभातस्य मूर्ध्निपीठं महत्तरं विकरालं जडाभारं बिभ्रवि वदनं तदा सहस्रसूर्यसङ्घाषा भासयन्ती दिशो विस्तीर्णं दशसाहस्रयोजनं तावदायदम् असङ्ख्यसूर्यसङ्काश्यं तन्मध्ये योजनायदं स्वानन्दभवनं भाति यत्र काञ्चनरञ्जनाः असङ्ख्यादागृहा भान्ति भास्वरा गजमौक्लिकाभा तस्यैव कृपया प्राप्य दुःखमोहविवर्धितः तदुत्तरे भाति परं इक्षुसागर एव तु सहस्रपत्रसंयुक्ता तन्मध्ये पत्मिनीशुभा सहस्रपत्रं कमलं तस्याम्भादि यथा शशी तत्कर्णिकागदस्तल्पो रत्नकाञ्चन निर्मिताः दिव्याम्बरयुदशेदे नृप तत्र विनायकः सिद्धिबुद्धिः सदा तस्य पादसंवाहनं मुदा कुर्वादे परया भक्त्या सामवेदस्त्रिमूर्तिमान् गानं करोति शास्त्राणि मूर्तिमन्दिस्तु वन्दितं पुराणानि च वर्णयन्त्यस्य सद्गुणान् बालरूपधरस्तत्र शुण्डादण्डविराजितः कोमलाङ्गोरुणनिभो विशालाक्षो विषाणवान् मुकुडीकुण्डलीराजत् कस्तूरीतिलकस्वराड दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः मुक्तामणिगणोपेदम् सरत्नं दामसन्तध अनन्तकोटिसूर्योजाश्चन्द्रार्धकृतशेखरः स्मरणात् पापः सद्य स्मृता गङ्गा यथा नृणां त्यजोवदी ज्वालिनीज शक्ति पर्यङ्कपार्श्वयोः सहस्रादित्य संकाशे तिष्टतो नृप सर्वदा न शीदं न जरा तत्र क्लमस्वेदोध तन्त्र्यपि क्षुधादृशा वा दुःखं वा न कदाच न जायते आनन्दहृदमग्नस्ते तत्र सन्ये सुपुण्यतः विश्वव्यापी बालरूपी यत्रतिष्टदि तिष्ठति विश्वविद मुद्गल उवाच यं ते कथिद लोको गणेश तस्द्रियाम तमेंराधय प्रभो क उवाच युक्त गदस्ता स्वीय मुद्गलो मुन काशीराज गणेश भजने तत्परोद सहस्रपञ्चवर्षाणि कृत्वा राज्यमनेनः देहेन यानमारुह्य गदस्वानन्दधाम तथ धा। इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशलोकवर्णनं नाम पञ्चाशत्तमोऽध्यायः ओ